पश्चादुतपोर्णा पुरस्तादुन्मध्यतः पोरोन्न मासीजि गाय तस्यान् देवा अधिसम्वसन्तमुत्तमेनाकरिहमारयन्ताम् यत्ते देवा अदधुर्भाकथे यममाभास्ते सम्पसन्तो महित्वा सानो यज्ञम् पिबिविश्वमारे रयिण्णो धे सुभगे सुवीणम् निवेशने सङ्क्रमणे पशूनाम् विश्वा रूपाणि वसोवण्यावेशयन्ति सहस्रपोषकम् सुभकारणासा नः कण्ड्वसा संविदाना अर्गे सोमो प्रथमो वीर्घेण वसोऽहम् मृतराणा विद्यानिरकिम्बदम् आभ्यगम् विपोर्णमासम् विषेधाम् ब्रह्मणा वृद्धौ सुकृतेन सातावथास्मभ्यकम् सह वीरागम् दयम् निगच्छतम् आदित्याश्चाङ्गिरसश्चाग्नेनादश एतदर्शमोर्णवासौ प्रयेक्षन्ते कामङ्गिरसान्निरुक्तगम् हविरासीदसादित्याघेतौ होमावपश्यन्तामजुहवस्ततो केदर्शपोर्णपादौ साक्षादेव तलश पूर्णभासा बालभते ब्रह्मवादिना वदन्ति सद्वैजलश पूर्णभासा बालभेदये लयोनुलोमम् च प्रतिलोमम् च विद्या विद्यमाभास्यायापूर्दन्तदनुलोमम् पौः न मास्यै प्रतिचीर्णम् तत्प्रतिलोमम् यः पौः न मासि पूर्वा बालभेद प्रतिलोममे ना वस्ता जो यार महा स्या वै सरस्पत्यनुरामेवै नामालभते मुहागमानमन्वाप्यागताज्ञा वैष्टवमेकादशकपालम् पुरस्तान्यर्भवेत् सरस्वत्यै जलुम् सरस्वते द्वादशकपालै भवत्यग्निर्वै यज्ञमुखै यज्ञमुखमेवर्द्धिम् पुरस्ताभे यद्वै वैष्टवो भवति भवति सरस्पदे द्वादश कपालो ओर् भास्यावे सरस्पदे ओर्णमाधस्तरस्पान्नावेक्षाधान पद शृद्धाप्यानाभ्यान् द्वादश कपालस्तरस्पदे भवति मिथन त्वाय प्रजा चैति सदौ गावो दक्षिणा समध्यै योगायन्द्रम् प्रत्यक्षम् नावश्यन्तम् वसिष्ठः प्रत्यक्षमपश्यत् सोऽत् ब्राह्मणन्ते वक्ष्यामि यथा समेतरे तस्मानेताम् सोभागाल ब्रभवेत् प्रतो वसिष्ठ पुरोहिताः प्रजास् प्राजायन्द्र तस्माद्वाधिष्ठ ब्रह्माकार्यः प्रैवजायते रश्मिरधिक गत्वा क्षयम् जन्मेत्याह देवा वेक्षयो देवेऽभ्यगेव यज्ञम् प्राह प्रेजलसि धर्मा गत्वा धर्मम् जन्मेत्याह मनुष्या वे धर्मा मनुष्येऽभ्यगेव यज्ञम् प्राहाण्जलिवे त्याहेभ्य एव लोकेभ्यो यज्ञम् प्राहविष्टम् वाजवृष्टे प्रावृष्टिम् जन्मेऽत्याहवृष्टिमेवावरुन्ध्य प्रवास्त्यमासेत्याहमिभ्यस्तावसौ जन्मेत्याहाष्टौवसोक द्वादशादित्या एतावन्तोऽपि देवास्तेभ्य एव यज्ञम् प्राहौभ्यस्ता पुत्रे जिन्वेत्याह देवादेव सन्तनोदितन्तरसि प्रजाभ्यस्ता प्रजा जिन्वेत्याः पितरेणेव प्रजावसन्तनोतिपुतनाशादसि पशुभ्यस्तावजो जिन्वेत्याः प्रजा एव वशो न सन्तनोतिरेव दस्योषधेभ्यस्तौषधे जिन्वेत्या ैव भतिष्ठापयत्रभिजरसि प्रग्रामेन्द्रागत्वेन्द्रम् जन्मेत्याः अभिजित्या अधिप्रजनसि प्राणागत्वा प्राणम् जन्मेत्याह प्रजा स्वेव प्राणान् दधाति प्रवदशसि प्रवतिहमिषत्रागसखो रोहो रोहोदेत्याह प्रजात्यैव सुखोऽखेहश्वरसुमस्य रसेत्याह प्रतिष्ठत्या अग्निना देवेन वृतनादिगामिकायत्रेण चन्दधा त्रिवृता स्तोमेन धरेण रथाम्नामुषट्कारेण पत्रेण पूर्वजान् भातुर्व्यानधरान् बाधकाम्यवेनान् बाधया प्रत्येनान्मुखेऽस्मिन् धेऽस्मिन् भूमि लोके न्द्रेष्टियं च भयं दृष्टा विष्णाक्रमेण आत्तेनाङ्क्रा मामीन्द्रेण देवेन पृतनालया वित्रैष्णुभेन छन्दसा पञ्चदशेन स्तोमेन बृहदा साम्नाभत्कारेण न वज्रेण विश्वेभ्यदेवेभ्यतनालया विजाग्रेण छन्दसा सप्तदशेन स्तोमेन वामधेन साम्नाभषत्कारेण वज्रे नामजालेन्द्रेण वृत्राण्यप्रति यत्ते अग्ने तेजस्ते नाहम् तेजस्वी भूयासम् यत्ते अग्नेवत् तस्ते नाहम्वत्तस्मै भूयासम् यत्ते अग्नेहरस्ते नाहनोहरस्वी वयम् आगन्ममित्रावरुणामयज्ञानहात्रीणाम् भागो युवयोग्यो अस्ति आगम् ग्रन्धारणास्तु कृतस्य लोके तृतीये वृक्षे अधिलोचने दिवः यज्ञहनो यज्ञपुषोऽन्तरिक्षेऽभ्यासतेभ्यो रक्षे मसुकृतो वयम् स्तेरात्रे समितदेव ज्ञानेरम् तरा ज्यावा पृथिवीभ्रियन्ति द्रहेश्च सर्वैः प्रजगान्मग्रेषु मोरुहा नास्तरतारजागुंसे एवायज्ञहनो यज्ञमशो यज्ञध्यासते शौर्यो भातेभ्यो रक्षेम सुकृतो वयम् येनेन्द्राजसमभरः प्रयागस्युत्तमेन हविषा जातवेदः ेव जातानादिश्रेष्ठः न वै देवायज्ञपुषः सन्ति तदेषोकेष्वासद गे, आददाना विवर्थाना यो ददानियोगिनरेतस्य देवाय ग्रहणः पृथिव्यामध्यासदे अन्तरिक्षेये विजित्या हेमानेव लोकागस्थेत्वा सकृहस्तवशस्वर्गम् लोकमेत्रेषो मे देजानाद्देवताश्च यज्ञश्चक्रामञ्चाख्येयम् पञ्चगपालमुदवसानीयन्निर्गमेरज्ञः सर्वा देवता स्वान्तो यज्ञो देवताश्चैव यज्ञम् चावलुन्धे गायत्रो वार्गायत्र प्रसन्दास्त्रन् छन्दसाभ्यर्थयति का यन् पञ्चगपालङ्करात्यष्टागपालः कार्यष्टाक्षरा गायत्री का गायत्राग्यर्गायप्रच्छन्दः स्वेनैवन्दसा समर्थयति पञ्चौ याज्ञानुपाक्ये भवदपान्तो यज्ञस्तेनैव ज्ञान इति देवो देवेभ्यः पातु पायुरन्तरिक्षार्जमानोऽर्मा पातु चक्षुषः सक्षसोर्विश्वचर्षणेतेभिस्वो मनामभिर्विषे मते तेभिस्वमनामभिर्विषेमते अहम् परस्तादहमवस्तादहम् ज्योतिषावितमोपवार यदन्तरिक्षम् तो मे पिता भूदः कुंसौर्यमुभयतो ददृशाहम्भूयासमुत्तमः समानानामासमुद्रादान्तरिक्षा प्रजापतिर्धियातेन्द्रप्रश्नौतु मरुतो वर्जयन्तोन्नम् भयपृथिवीम् भिन्धेदम् दिव्यम् नभः पुद्रो दिव्यस्त नो देहीशानो विसृजा पशवोपादेते यदादित्यकेशरुद्रो यलोषधे प्राशाज्ञावादित्यञ्जहोतिरुद्रा देवपशूनन्तर्गथा पशून् प्रतिष्ठापयति कविनिज्ञस्य वितनो चिबन्धान् नागस्य पृष्ठे अधिलोचने दिवः एनः व्यम्बहसिजाति दूत इतः प्रचेता अमुतः शरीरान् यास्ते मिधः सन्तज्ञेया पृथिव्याः सोऽजाः तास्ते गच्छन्त्वाम् घृतश्च देवायते यजमानाय धर्म आशादानस्ववेर्यगम् राजस्पोटग्रस्वश्विजम् बृहस्पतिना राजा स्वगासुतोमह्यञ्जमानायतिष्ठा सन्पनिया सन्पनक्याम्यपोषधी सन्पनियामार्दाशनकोवाचमस्मे ब्रह्मण स्पत्नी सीदत तो अथाह माने लोकेजल्वा वजन सुपत्नेपसे अर्णेदपत्तदम्भनवदभ्यासो पदाभ्याम् इमम् विश्या विवरुणस्य पाशयमबर्थेत सविता सुकेतः धातुश्च योनौ तु कृतस्य लोके स्योऽम् मेतः पत्या करोमि ुते स्थिरस्य वामीरम् भग्स्य गृह्णयपरि धर्मभ्यन्तदतागम् रुद्रावदृष्टादि युवानाममामाहिगम् पदुभ्यो रुद्रेभ्यादित्येभ्यो विश्वेभ्यो देवेभ्यः पन्ने दले गृह्णामि ज्ञानवः पण्डे दने साधयामि विश्वस्य विश्वावतो वृष्टिरावदस्तवाग्ने वामीननु विश्वादेतागुं धी यज्ञोनि देवे देवेभ्यो देवे यज्ञमधिरन्नस्मिन् संवदेजमान आदरस्वाहाकृताः समुद्रेष्ठागम् धर्मवादष्टदानो वादस्य अषत्कारो वेगायत्रिरे प्राविशत्सखतिराभवद्यस्य काविरस्पृवा देवा वै ब्रह्मन्नवदन्तपावेनामयस्य पर्णमली जुहोन्भवदिन पावज्ञश्लोगं शृणोति ब्रह्म वे पर्णाविण्मरुदोन्नम् विण्मारुतोन् भवत्या स्वच्छ भवरुन्ध ब्रह्मैव पश्च्यो हतिराष्ट्रं वेत्थो भवत्याश्वमेव पश्यद्योहति प्रजापतिर्वात्सा यत्रा प्रत्यतिष्ठत्ततो विकङ्कतमुदतिष्ठत्तरः प्रजा असृजदयस्य ध्रुवा भवति प्रत्ययास्याहुदयस्तिष्ठन्त्यथैवजायतरेतद्वये सृजागौ रोप यस्यैव गौरोपासृजा भवन्ति सर्वाण्येवेन गौ रूपाणि पशूनामुपतिष्ठन्ति मन्त्रेणा स्यापरूपमात्मञ्जायते उपजामगृहीतो प्रजापतये त्वा ज्योतिष्पदे ज्योतिष्मन्तं गृह्णामिन्द्रज्येष्ठेभ्यो वरुणराजभ्यो वातादिभ्य प्रजन्यात्मभ्यो दिवे त्वान्तरिक्षाय तावे त्वावेत्मिषतो मनोपरिज्यासतो नो रातीय प्राणाय त्वापादाय त्वा ज्ञानाय त्वाधरे त्वाद्यस्तौषधेभ्यो विश्वे व्यस्ता भूतेभ्यो यतः प्रजा अर्क्षिद्राजानन्तरस्मये त्वा प्रजापतरे जोदुष्मते ज्योतिष्पदे ज्योतिष्मन्तम् जोमि याम्बा अद्भर्यश्च यजमानश्च देवतामन्तरितस्तस्यावृष्टे प्राजावत्यन्तसि ग्रहम् गृह्णीरात्मजापतिः सर्वा देवता देवतान्धुवाेष्ठो वाैत गृह्यते ज्येष्ठ्यमेव गच्छति सर्वासाम्बा एतद्देवता नागौ रूपय्य देशग्रहो यस्यैत गृह्यते सर्वा शूनामुपतिष्ठन्तृहीज्योतिप्रजापदत्वा ज्योतिष्पदे ज्योतिष्पन्तं गृह्णामेत्याह ज्योतिदेवेणत्वयाभ्यस्तर्वे देवतास्ताभ्येवेन सर्वाभ्यो गृह्णात्यहभ्यागृहे पाणाय त्वापाणाय यजमाने तथा च तस्मै त्वा प्रजापतयेर्भोदावृह्ने ज्योतिष्पदेर्ज्योतिष्पन्दं ज्योमेत्याः प्रजापतिः सर्वा देवताः सर्वाभ्येवैनम् देवताभ्यो जोज्य ग्रहम् गृह्णेना तेजस्कामस्य ते जोवाज्यम् तेजस्वेव भवति होमग्रहम् गृह्णेना ब्रह्मवर्चस कामस्य ब्रह्म ैव भगतिरधि पशुकामस्योदभ्योत्पशमपूर्जैवा स्वादोजम् पशोरवरुन्धे स्वय कृतमपि व्यञ्जनन्ति विश्वे ते कृोमानो स्वाधीर स्वादुना सुदासमथ भूषुमसु नाभियोधि य प्रजापतरे त्वा चम् गृह्णा मेघदेजाय प्रजापतरे <Sessi> <tess> गृह्णा एतावद्वा अस्ति यावदेते ग्रहास्तोपाश्चन्दागुङ् पृष्ठाभिदिशो यावदेवास्त्रिरवन्दे ज्येष्ठालेल ब्राह्मणा पुरा पिता वत्रस्मात्ये सर्वादिशोऽभिजिताभोवयस्यैरेख्यन्ते ज्येष्ठ्यमेव गच्छत्यभिदिशो जै पञ्चरिक्ष्यन्ते पञ्च दिशः सर्वास्त्येव न्ति नव गृह्यन्ते नव वै मुष प्राणा प्राणानेव यजमानेषु ददृ प्राणिलेन गृह्यन्ते प्राणावै प्राणग्रहा प्राणेरेव प्रयन्ति प्राणेरुध्यन्ति दशमेहं गृह्यन्ते प्राणावै प्राणग्रहा प्राणेभ्यः खनुवारेण प्रजायन्ते यद् वामदेव्योनेश्चपदेशमेहं वामदेव्यै योने ते भरता क्षदा अयमुष्यप्रदे वयुर्होतारिव्यायनीयते रथोरजोरभीमृतो घणीवाङ्मणा अयमग्रदश्यद्गमृतादिमजन्मनः सरीजाम् देवो देवातवे कृतः हिणायास्त्वापदे वयम् नाभा पृथिव्या अधि जातवे दो नधि मह्यग्ने हव्यायमोढवे अग्ने विश्वे भिस्मनेकदेवेरोन्नावन्तम् प्रथमस्ति तयोनिम् कुलायिनम् क्षितवन्तंसवित्रे निज्ञन्नमानाय साधु शीतहो तस्वौ लोके च कृत्वान् सादगुङ्कृतस्य लोनौ देवानस्य दक्षः अतलब्धौ व्रतप्रभस्रम् भरस्वतिजिह्वा अग्निः सन्दोदस्तपुनःपरस्ता स्तम्बस्य प्रणेता अग्ने तोकस्य हस्तने तनो नाम प्रयच्छन्ते यद्बोधि गोपाः अभित्वादेव सविदीशानम् वार्याणाम् सदा मन्भागमीमहे महेद्याः पृथिवीजन इमै यज्ञम् विपेक्षताम् तमुत्पादध्यम् गृहः पुत्रगीधे अथर्वणः कृत्रहनम् पुरम् धनम् तमुत्त्वापापाथ्यो विषासमेधेजस्य हन्तम् धनञ्जलय उद ब्रुवन्तु जन्तममुदग्निरवर्त्रहाजने धनञ्जयोरणेरणे आयकम् हस्तेन खाति न कुंशिशिम् जातम् तदेवम् देववीतरे भरतावसुवित्तमम् आश्वेयो नौरिषीदतो आजातम् जातवेदधि जात प्रियगुंसि शीतातिथिम् श्रोणा गृहपतिम् अग्निनाग्निस्तमिध्यते कविर्गृहपतिर्युवा हव्यवाजुक्वास्ये दे अग्निना विप्रो विप्रेण सन् सखा सख्या समिध्यते सम्मर्जयन्त सुकृतम् पुरो यावानमादिषु स्वक्षरेषु वादिनम् यज्ञेन यज्ञमयजन्तदेवास्तानि धर्माणि प्रथमान्यासन् ते हाकम्बहिमानस्तजन्ते यत्र पूर्वे साध्याः सन्ति ओ तृतीयकाण्डः समाप्तः